श्रीमद्भागवतमापुराणं चतुर्षु स्कन्ध अथाष्टाविंशोऽध्यायः नारदुवाच सैनिकाभैनाम्नो ये बर्हि स्मन्दिष्टकारिणः प्रज्वारकालकन्याभ्यां विचे दूरवणीमिमां त रुधुर्भौमं भोगाढ्यां जरद्पन्नपालितां कालकन्यापि बुभे पुरञ्जनपुरं बलात् ययाभिभूतपुरुषशद्योनिसारतामियां तयोपभुज्यमानां वै यवना सर्वदोषितं सर्वतोदिशं द्वार्भि प्रविश्य शुभृन् शुभृशं प्रां सकलां पुरीम् तस्यां प्रवीड्यमानायाम् अभिमानी पुरञ्जनः अवापूरुधास्तापान् कुटुम्बी ममता कुलः कन्योपगूढो नष्ट श्रीकृपणो विषयात्मकः नष्टप्रज्ञो हृतैश्वर्यो गन्धर्वयवनैर्बलात् ऋषीणां स्वपुरीं वीक्ष्य प्रतिकूलान्नादितान् पुत्रान् पौत्रानुगामात्यां जायां च गतशोषिताम् आत्मानं कन्यया ग्रस्तं पञ्चालानरिदूषितान् दुरन्तचिन्तामापन्नो न लेभे तद्वृतीक्रियां कामानविलसन्दिन्नो जातयामाश्च कन्ययां विगतात्मगतस्तृष्णेहपुत्रतारान् च लालयन् गन्धर्वयवनाक्रान्तां कालकन्योपमर्दितां हातुं प्रचक्रमे राजा तां पुरे मणिकामतः भय नाम्नोऽग्रजो भ्रातां प्रज्ज्वार प्रत्युपस्थितः ददाह तां पुरीं कृष्णां भ्रातो प्रे चिकीर्षयां तस्यां सन्दह्यमानायां सपौरसपरिच्छद कौटुम्बिककुटुम्बिन्या उपातप्यत यवनो यवनोपरुद्धाय ग्रस्तायां कालकन्ययां पुर्यां प्रज्वालसंशिष्ट पुरपालोन्वतप्यत। न शेकेशोवितुं तत्र पुरुक्रोर्वेपथो जन्तुमेच्छत्ततो वृक्ष कोटरादीवशानलात् शिथिलावयवो यर्हि गन्धर्व्यैहितपौरुषः यवनैरलिवीराजन्नुपरुद्धोरुदः दुहित्रे पत्रपौत्रास्य जामे जामातृपार्षदान् त्ववशिष्टं यत्किञ्चिन् गृहकोशपरिक्षतम् अहं ममेति स्वीकृत्य गृहेषु कुमतिर्गृहे दध्यौ प्रमोदयादीनो विप्रयोग उपस्थिते लोकान्तरं गतवती मय्यनाथा कुटुम्बिरे वर्तिष्यते कथं तेषा बाला सोचते, न ना मय्य नाशिते भुङ्क्ते नास्नाति स्नाति मत्परां मयि रुष्टे सुसंतस्ता भर्षिस्ते प्रबोधयति मा विज्ञं विशिते शोककर्षिता वर्त्मयि तद्गृहमे धियं वीरशूरपि नेष्यति कथं नो वर्तिष्यते मयि गते भिन्ननावयवो दधौ एवं कृपणया बुद्ध्या शोचन्तं मतं दर्हणम् ग्रहीतुं कृतधीरेणं भयनामा व्यपद्यत पशुवद्यवनैरेशनीयमानशकं क्षयम् अन्नद्रमन्ननुपथा सोचन्तो भृतमातुराः पुरीं विहायोपगत उपरुद्धो भुजङ्गमः ददा तमेवानुपुरे विषीणा प्रकृतिं गतां विकृष्यमाणप्रथवं जवनेन बलीयसा नाविन्द तमशाविष्टशुखायं स्वेदं पुरः तं यज्ञपशुवो नेन संज्ञप्ता ये दयालुनां कुठारे स्थेच्छितो क्रुद्धा तामेव मनसा क्रीणन् बभूव प्रमदोत्तमाम् अनन्तरं विदर्भस्य राजसिंहस्य वेश्मरे उपये मे वीर्यपणां इजे मलयध्वजः यदि निर्जित्य राजन्यान् पाण्ड्यं परपुरञ्जय तस्यां स जनयाश्चक्र आत्मजामसितेक्षणां यवीयस सप्तसुतान् सप्तद्रविणभूभित एकैकैस्या भवत्तेषां राजन्नम् मोक्षते यद्वंसधरैर्महिमन्वन्तरं परम् अगस्त्यप्राग्दुहितम् अमुपेम् अनुपमे ये मेधितव्रतां यस्यां दृढचितो जात यद्मवाहात्मजो मुनिः